श्रीमद्भागवत्महापुराणम् एकादशी स्कन्ध त्रयोविंशोऽध्यायः श्रीभगवानुवाच इत्यभिप्रेत्रमनसा यन्त्यो द्विजसप्तमः उन्मुच्य हृदयग्रन्थिन् शान्तो भिक्षुरपुन्मुनिः सारमहिमेतां संयतात्मेन्द्रियानिलः भिक्षार्थम् नगरग्रामाणसङ्गो लक्षितो विशत तं वै प्रवयसम् भिक्षुमवधूतमञ्जनाः दृष्ट्वा पर्यभवन् भद्रबाहीभिः परिभूतिभिः केचित् त्रिवेणुम् जगृह्युरेकम् रेके पात्रम् कमण्डलम् पीठम् चैकैकसूत्रम् च कन्थां चीराणि केचन हृदाय च पुनस्तानि दर्शितान्याद् दुर्मुनेः अन्नम् च भैक्षसम्पन्नम् भुञ्जानस्य शरीतटे मुद्रयन्ति च पापयिष्ठाःत्यस्य च मूर्धने यत् वाचम् वाचयन्ति ताडयन्ति न भक्ति चेत् तर्जयन्त परे वाग्भिस्तेनोऽयमिति वादिनः बध्नन्ती रज्ज्वातम् केचिद्बध्यताम् बध्यतामिति क्षिपन्ते केव जानन्त एष धर्मध्वजस क्षीणवित्त इमाम् वृत्तिम् अग्रहीत स्वजनोज्झितः अहो एष महासारोऽ धृतिमान् मौनेन साधयन्त्यर्थम् भगवन्त्रिण निश्चयः नित्येकेभिः सन्त्येनम् एके दुर्वातयन्ति च तम्बन्धो निरुन्धर्यत क्रीडनकुन्दिजम् एवम् सभौतिकम् दुःखम् दैविकम् दैहिकम् च यन् भोक्तव्यम् आत्मनो दृष्टम् प्राप्तम् प्राप्तम् अबुध्यत परिभूत इमाम् गाथाम् अगायत् न राधमयि पाति यद्भिः स धर्मस्थोऽमास्थाय सात्विकीम् द्वियुवाच नायम् जनो मे सुखदुःखहेतुर्न देवतात्मा गृहकर्मकाराः मनः परम् कारणमामनन्ति संसारचक्रम् परिवर्तयेद्यत मनोगुणान्वयिषे बलीयन्ततश्च कर्माणि विलक्षणानि शुक्लानि कृष्णान्यथ लोहितानि तेभ्यः सवर्णाश्रुतयो भवन्ति अनीह आत्मा मनसा समीहता हिरण्मयो मत्सख उद्विचे मनः स्वलिङ्गम् परिगृह्य कामाञ्जु सन्निबद्धो गुणसङ्गतोऽसौ दानं स धर्मो निमूयमश्च श्रुतं च कर्माणि च सद्वृतानि तरें सर्वे मनो निग्रहलक्षणान्तः परोहि योगो मनस समाधि समाहितम् यस्य मनः प्रशान्तम् दानादिभिः किं वद तस्य कृत्यम् असंयतम् यस्य मनो विनश्यन् दानादिभिश्चेद् परम् किमेवि मनोवशेऽन्ये श भुवन् स्म देवा ननश्च नान्यस्य वशं समेति भीस्मो हि देव सहस सहीयान्द्युद्याग्वसि तम् स हि देवदेव तम् दुर्जयम् शत्रुमशैय्य वेग मरन्तु तम् तन्न विजित्य कुर्यन्त सद्विग्रहमत्र पर्त्यै मित्राणि दासीनरिपुन्विमूढाः देहम् मनो मातृमिमम् गृहीत्वा ममाहभिन्त्यन् धरियो मनुष्याः एसोऽहमन्नोऽयमिति भ्रमेण दुरन्तपारेतमसि भ्रमन्ति जनस्तु हेतुसुखदुःखयोश्चेन् किमात्मनश्चात्रः भौमयोस्तह्वाम् क्वचित् सन्दसति स्वदद्भिः तद्वेदनायाम् कतमाय कोप्येत् दुःखस्य हेतुर्यदि देवतास्तु किमात्मनस्तत्र विकार्योऽस्तन् यदङ्गमङ्गेना निहन्यते क्वचिन् क्रुद्धेदकस्मै पुरुषस्वदेहे आत्मा यदि स्यात् सुखदुःखहेतु किमन्यतस्तत्र निजस्वभावः न चात्मनोऽन्यदिम् तन्विषा स्यात् क्रुद्धेत कस्मान्न सुखम् न दुःखम् ग्रहानिमित्तं सुखदुःखयोश्चेत् किमात्मनोजस्य जनश्च ते वै ग्रहेर्ग्रहस्यैव वदन्ति पीडां क्रुध्येत कस्मै पुरुषस्ततोऽन्यः कर्मा सुहेतुसुखदुःखयोश्चेत् किमात्मनस्तद्धि जडा जडत्वे देहस्त्वचिन् पुरुषोऽयं सुपर्णक्रुद्ध्येत कस्मै न कालस्तु हेतुसुखदुःखयोश्चेत् किमात्मनस्तत्र तदात्मकोऽसौ नाग्निर्हितापो न हिमस्य यस्य बुद्धेत कस्मै न परस्य द्वन्द्वन्द्वम् न केनचित् क्वापि कथञ्चनास्य द्वन्द्वोपरागपरतपरस्य यथाहमसंस्कृतिरूपिण स्यादेवं प्रबुद्धो न विभेति भूतैः एतां स आस्थाय परात्मनिष्ठामध्यासिताम् पुर्वतमैर्महर्षिवी अहं तरिष्यामि दुरन्तपारम् तमो मुकुन्दाघृषेवयैव श्रीभगवानुवाच निर्विद्यनश्च द्रविणो गतक्लमः प्रवजिगाम् पर्यटमान इत्थम् निराकृतो सन्धिरपि स्वधर्मान् अकम्पितो मुम् मुनिना ह गाथा सुखदुःख प्रदूनान्य पुरुषस्यात्मविभ्रमः मित्रोदासीनरिपुः संसारस्तमसकृतः तस्मात् सर्वात्मना तात् निगृह्णान् मनोधिया मय्यावेशिति अयुक्त एतावान् जायेतां भिक्षुणागीताम् ब्रह्मनिष्ठां समाहितः धार्यन् श्रावय तृण्द्वन्द्वैनैवाभिभूयते इति श्रीमद्भागुते महापुराणे पारमिंशां सहितायाम् एकादश स्कन्धे त्रयोविंशोऽध्यायः